नारदपुराणम् उत्तरार्थम् अध्यायं सेवेण्टि एय्ट् अधा वन्दी माहात्म्यं मोहिन्युवाच अत्यद्भुतमिदं विप्रमाहात्म्यं नर्मदाभवं श्रुतं त्वया निगदितं नृणां पापविनाशनम् अधुनाधुमहाभागब्रूहि मे वन्दि सम्भवम् माहात्म्यम् देव वंद्यस्य महाकालस्य च प्रभो वसुरुवाच शृणु भद्रे प्रवक्ष्यामिह्यवन्त्याः पुण्यदं नृणाम् माहात्म्यम् सर्वपापत्नम् यथावत्परिकीर्तदम् महाकालवनम् पुण्यम् तपःस्थानमनुत्तमम् यत्र देवो महाकालस्थितस्तपसि नित्यदा महाकालवनात् क्षेत्रं नवरं विद्यते भुवि यत्र गत्वा नरो देविस्पर्धते दे दैवतैः सह कपालमोचनं नाम यत्र तीर्थं सुलोचने तत्र नरो भक्त्या ब्रह्महापि विशुध्यति तथा कलकलेशाख्यं देवमभ्यर्च्यमानवः विवादे जयमाप्नोति कार्यसिद्धिम् च सन्ततम् अत्रान्यदप्सरकुण्ठम् तीर्थम् तत्राप्लुतो नरः सुभगो भोगवान् भूयात् साक्षात् कन्दर्पसन्निभः महिषाख्ये तथा कुण्डेष्णादशत्रूञ्जये द्रणे स्नातस्तु रुद्रसरसि रुद्रलोके महीयते कुण्डवेश्वरमासाद्य समभ्यर्च्य विधानतः व्यापारे लाभमाप्नोति जायते च शिवप्रियः विद्याधराह्वये तीर्थे नरः स्नात्वा विशुध्यति दी मार्कण्डेश्वरमभ्यर्च्य दीर्घायुश्च धनी भवेद् सम्पूज्य शीतलां देवीं नरः कालवने स्थितां नैव कदाचित्तस्य जायते स्वर्गद्वारं समासाध्य स्नात्वाभ्यर्च्य सदा शिवं नरो न दुर्गदिं व्याधिस्वर्गलोके महीयते राजस्थलम् नर प्राप्य ततः सामुद्रिके प्लुतः स्नानस्य सर्वतीर्थानां लभते फलमुत्तमम् शङ्करस्य तथा वाप्याम् स्नात्वा नियमवान् नरः प्राप्येह वाञ्छिदन् भोगानन्दे रुद्रपुरम् व्रजेद शङ्करादित्यमभ्यर्थ्य नरस्या दुष्प्रधर्षणः स्नातस्तु नीलगङ्गायां देवीं गन्धवतीं नरः सम्पूज्य भक्तिभावेन सर्वपापैः प्रमुच्य दे दशाश्वमेधिके स्नात्वा वाजिमेधफलं लभेद अर्धमर्त्यसमासाद्य ये का नं शां सुरेश्वरीं सम्पूज्य गन्धपुष्पाद्यै सर्वान् कामान् वानुयाद हरसिद्धिमरोभ्यर्च्य सर्वसिद्धीश्वरो भवेद् पिशाचकादिकान्मर्त्य समभ्यर्च्य चतुर्दश सर्वान् कामान्वाप्नोदि नात्र कार्याविचारण हनुमत्केश्वरं प्रार्च्य स्नात्वा रुद्रसरोवरे यो नरश्रद्धया युक्तः सलभेत्सम्पदो किलाः वाल्मीकेश्वरमभ्यर्च्य सर्वविद्यानिधिर्भवेद् शुक्रेश्वरादिलिङ्गानि योऽर्चयेच्छ्रद्धया नरः स्याद किल भोगाढ्य सर्वरोगविवर्जितः पञ्चेशानं समभ्यर्च्यस्यान्नरसर्वसिद्धिभाक कुशस्थलीं परिक्रम्य वाञ्छितं लभते फलम् अक्रूरेशं तु सम्पूज्य क्रूरेभ्योऽप्यभयं लभेत् मन्दाकिन्यां समाप्लुत्य गङ्गास्नानफलं लभेत् अङ्गपादं नरोऽभ्यर्च्य शिवस्यानुचरो भवेत् चन्द्रादित्यं प्रपूज्याथ भोगानाविधल्लभेत् करभेश्वरमभ्यर्च्य यानसौख्यमवाप्नुयात् लु कीयडु क्रीय विघ्नेश समभ्यर्च्य सुखी भवद कुसुमेषादिकाच्य सर्वान्ोगाश्दे यज्ञ व्हां सम्ययत लुग मे गसे दिव सोमवत्यमरस्नात्वाभ्यर्च्य सोमेश्वरं सदि वाञ्छि तल्लभदे कामानिकामुत्रजमोहिनि यादनाकलने स्नात्वा यादनां नैव पश्यति नरकेशं समभ्यर्च्य स्वर्गलोगदिं लभेद केदारेशं ततः प्राच्य रामेश्वरमधाभिवाक् सौभाग्येशम न्यं लभ देवांचितिद केशवार्क संपूज्य नर सौव प्रिय शक्ति तुच्य देतुग्रसंगुरब्रह्म वाप्याच्या भयश्वर अगस्त्येषं च विधिज सम्पदामयनं भवेद् ओङ्कारे श्यादिलिङ्गानि यो नर सम्यगर्चयेद् स लभेदखिलान् कामान् महेशस्य प्रसादतख महाकालवने देवी लिङ्गसंज्ञानविद्यते दे। यत्र तत्र स्थितं लिङ्गं सम्भुज्य स्याच्छिवप्रियः तदा कनकशृङ्गाह्वा कुजस्थल्यप्यवन्धिका तदा पद्मावती देवी कुमुद्वत्युज्जयिन्यभिप्रतिकल्पाभिधा भिन्ना विशालाख्यामरावती क्षिप्रायां वै नरस्ना त्वां यो महेशं समर्चयेत् सलभेत् सकलान् कामान् देवयोस्तु प्रसादः स्नात्वा तु गोमदीकुण्डे स्वर्गदिं लभते नरः कुण्डे वामने स्नात्वा स्तौदि सहस्रदः श्रीधरं सर्वदेवेशं यः स स्नात्वा वीरेश सरसि यौर्चयेत् कालभैरवं स सर्वा सम्पदो भुक्त्वा शिवलोकमवाप्नुयाद यः या कुटुम्बेश्वरं प्राप्य पूजयेदुपचरकैः सम्प्राप्य विविधान् कामानन्दे स्वर्गतिं लभेद् देवप्रयागसरसि योऽर्चयेदेवमाधवं सभक्तिमाधवे प्राप्य पदं विष्णोः समाप्नुयाद ककराजस्य तीर्थे तु स्नात्वा प्रयतमानसः सर्वरोगविनिर्मुक्तो धनी भोगी भवेत् सति अन्तर्गृहस्य यात्रायां विघ्नेशं भैरवं ह्युमान् रुद्रादित्यान् सुरान्यान्योर्चयेत्र दयामरः यद्धा लब्धोपचाराद्यैष भवेत् स्वर्गलोकभाक रुद्र भामिनी सर प्रभृतिषु तीर्थान्यनिया भामी बहूनी तेजु चाभ्यर्च्य शरम सैत्सुखी नर अष्टीर्थ्यानाभेद सत्यं विधि सत्यम सत्यमयोजित यद तेमत्म्यं पापनाशनम प्रमुच्यते। अवंत्यार श्रुवा सर्वै प्रमुच्यी बृहन्नादीयपुराणे बृहदुपाख्याभागे वसुमोहिनी संवाद अवंति का महात्म्यसमोध्यावंति महात्म्यम संपूर्ण ओं